ॐ परमात्मने नमः श्रीजगदम्बिकायये नमः अथ श्रीमद्देवी भगवते महापुराणे सप्तमस्कन्धे अष्टाविंशोऽध्यायः जन्मेवाच विचेत्रमिदमाख्यानम् हरिश्चन्द्रस्य कीर्तिदं शताक्षीपादभक्तस्य राजस्य धार्मिकस्य च साक्षी साकतो दाता देवी भगवती शिव तत्कारणं वदम्ने साक्षकं जन्ममे मे कोहि को हि देव्या गुणान् शृण्वन् तृप्तिं यास्यति शुद्धधीः पदे पदेष्वमेधस्य फलं भक्षय्यमश्नुते शृणुराजन् प्रवेक्ष्यामि शताक्षी सम्भवम् शुभं त्वावाच्यं न मे देवी भक्तस्य विद्यते दुर्गमाख्यो महादैत्यः पूर्वं परमदारुणः हिरण्याक्षान्द्वये दातो रुरुपुत्रो महाखरः देवानां तु बलं वेदो नाशे तस्य सुरापि नञ्चन्त्येव न विधेयं तावदेव तत् बिमृषे तत् तपश्चर्यां तत गदकर्तुं हिमालये ब्रह्माणं मनसः ज्ञात्वा वायुभक्षो वितिष्ठत सहस्र वर्षपर्यन्तं चकार परमं तपः तेजसा तस्य लोकासु सन्तृप्ताः ससुरासुरः ततः भगवान् संसारूढचतुर्मुखम् चतुर्मुख ययो तस्मै वरं दातुं प्रसन्नमुखपङ्कजम् समाधिस्थं मिलेताक्षम् स्फुटमाह चतुर्मुख वरय वरं वरय भज्रन्ते यस्ते मनसि वर्तते तवाद्य तपसा तुष्टो वरदेहोऽहमागतः कृत्वा ब्रह्ममुखाद्वाणीम् दुत्थितः समाधितः पूजयित्वा वरम् वव्रे वेदान्तेहि देहि सुरेश्वर त्रिशलोकेषु ये मन्त्रा ब्राह्मणेषु सुरेष्वपि विद्यन्ते तेतुना तु न ते तु सान्निध्ये मम देहि येन तस्य जुत्वा तथा स्वीती वचस्व जगाम सत्य लोक चतुर्वेदेशर पर विप्रमृत वेदराशय सान संध्याज पैुपता धारिणी पीठ विलुप्ता धर्म पृथ्ठे हाहाकार महानभूत किऊ पर वेदाभा कर्तव्य कि, कि वेदा भौमो महान परम दारुणे निर्जर स जाता हविभागा तदा दैत्यो नगरीम् अमरावतिम् अशक्तास्तेन ते योद्ध वज्रदेहासुरेण च पलायनम् तदा कृत्वा निर्गता निर्जरः निलयम् गिरिदुर्गेषु रत्नसानुगुहासु च संस्थिताः परमां शक्तिम् यन्तस्ते वराम्बिकाम् अग्नो हो मातु वृत्यभावोप्यबुन्दुपृष्टे भावे संसुक्तम् वृत्यभावे संशुष्कम् निजलं चापि भूतलम् कोप वापि शुष्कतां गतः अनावृष्टियं अभूच्च शतवाचिके हुता प्रजा च बहुधाय गोमयी च रय तथा गृहे गृहे मनुषाणाम् अभवत् शवसङ्ग्रह अनर्थे त्वेवमुद्भूते ब्राह्मणः शान्तचेतसे गत्वा हिमवतः पाश्वे हृराधयी शव शिवाम् देवीम् सुष्टु वरन्वहम् निराहारा तथा सष्टास्तामेव शरणम् ययुः स्वयाम् कुरो महेशानि पामरेषु जनेषु हि सर्वापराधयुक्तेषु नैतश्लाघ्यम् तवाम्बिके कोपम् संहर देवेशि सर्वन्तर्यामि रूपिणी त्वया यथा प्रेर्यतेयम् करोति स तथा जनः नान्यागति जनस्यास्य किं पश्यसि पुनः पुनः यथेच्छसि तथा कर्तुम् समर्थो समर्थासि महेश्वरी समुद्धर महेशानि सङ्कटात् परमोत्थितात् जीवनेन विरस्माकं कथं स्यात् चिरम्बिके प्रसीद त्वं महेशानि प्रसिद्धे जगदम्बिके अनंतकोटी ब्रह्माण्डे नायिके ते नमो नमः नमः कूटस्थरूपायै सिद्रूपायै नमो नमः नमो वेदान्तविद्यायै भुवनेश्यै नमो नमः नेति नेति वाक्य बोध्यते सकलागमयि तान् सर्वकारणां देवीं सर्वभावेन सन्नतः इति सम्प्रार्थिता देवी भुवनेशी महेश्वरी अनन्ताक्षीमयम् रूपम् दर्शयामास पार्वती नीलाञ्जनसमप्रक्षम् नीलपद्मायते क्षणम् सुकर्कष समोत्तुङ्गवृत्तफीनघनस्तनम् बाणमुष्टिम् च कमलम् पुष्पल्लवमूलकाम् शाकादिन्फलसंयुक्तम् अनन्तरससंयुताम् शुर्जरापहां हस्त बिभ्रते च महाधनुः सर्वसौन्दर्यसारं दत् रूपं लावण्य शोभितम् कोटिसूर्यपतिकाशम् करुणरससागरम् दर्शयित्वा जगद्धात्री सानन्दनयनोद्भवः मोचयामास लोकेषु वारिधारः सहस्रजः नवरात्रिः अभो नेत्रोद्भव जलै दुःखितान् वीक्ष सकलान् नेत्राश्रोणि विमुञ्चति तर्पिता तेन ते लोका ओषध्य सकला अपि जयै सम भवन्नृपे निलीय संस्थितः पूर्वं सुराश्रे निर्गता बहिः मलित्वा श्वशुराभिप्रा देवीं समभितुष्टुवुः नमो वेदां स वेद्ये नम ते नमो ब्रह्म स्वरूपिणी स्वमाय सर्वजगद्विधात्रे ते नमो नमः भक्तकल्पद्रुवे देवि भक्तार्थम् देहधारिणी नित्यतृप्ते निरुपमे भुवनेश्वरि ते नमः अस्मच्चम् अतुलम् लोचनाम् सृगम् त्वया यतो धृतम् ततो भवे क्षुधया पीडिता मासः स्तोतुम् शक्तिर् चास्तु नः कृपाम् कुरु महेशानि वेदानप्यहरम्बिके इति तेषाम् वचः श्रुत्वा शाकं स्वकरसंस्थितान् साधूनि परभोराणि भक्षणार्थम् ददौ शिवा नानाविधानि चान्नानि पशुभोज्यानि यानि च काम्यानन्तरस्वयुक्तम् यान्यान् वीनोद्भवम् ददौ शाकम्भरे ते नामापि तद्धिनात् न भूनृपः स च कोलाह वेदाक्येन बोधितः ससैन्यः स युधो योद्धुम् दुर्गमाख्योऽसुरु यो स्व्राक्षोहिणीयुक्तः शरान्मुञ्चन् त्वरान्वितः रुधे तत् यद्धिव्यग्रे स्थितम् पुर तथापि प्रगणम् चैव क्रोधयामास तथ किल कि शब्द तम भूदे वाक्या प्रोचु सर्वे ईमर तथ तेजो मह्रेवा शिव चकार रक्षण स्वयं तस्मा बहिस्थिताय सदसमभवद्युद्धम् देव्या दैत्यस च उभयोः सर्वश्च समाच्छन्नम् सूर्यमण्डलमद्भुतं परस्पर शरोघ समुद्भूताग्नि सुप्रभम् कठोरज्याचनात्कारे बधिरे कृतदिग्दम् दिक्पटम् ततो देवी शरीरा तु निर्गता तीव्रशक्तयः कालिका तारिणी बालाय त्रिपुरा भैरवीरमा बगला चैव मातङ्गी तथा त्रिपुरसुन्दरी कामाक्षी तुलया देवी जम्बिनी मोहिनी तथा छिन्नमताय गुह्यकाली दशसहस्रबाहुकाय धात्रिञ्च शक्तयश्चान्या चतुष्टचतुषष्टि मितः परः असङ्ख्यातास्ततो देव्यः समुद्भूता सु सायुधः मुदङ्गशङ्गीणादि नादितं सङ्गरस्थलम् शक्तिभेदस्य सैन्ये तु नाशिते क्षोहिणीशते अग्रे सहसमभवत् दुर्गभो वाहिनीपतिः शक्तिभिः स युद्धं च चकार प्रथमम् रिपुः महद्युद्धम् समभवत् यत्र भूद्रक्तवाहिनी अक्षोहिण्यस्तुता सर्वा विनष्टा दशभि दिनैः तत एकादशे प्राप्ते दिने परमदारुणे रक्तमाल्याम् बरधरो रक्तगन्धानुलेपनः कृतोत्सवम् महान्तम् तु युद्धाय रथसंस्थितः संरम्भेणैव महता शक्तिः सर्वाभिजित्य च महादेवी रथाग्रे तु स्वरथम् तन्न्यवेशयत ततो भवन् महद्युद्धम् देव्यादृत्य स ततः पञ्चदशाणान् देवी ममोचहे चतुर्भि चतुरो वाहम् बाणेनैकेन सारथिम् द्वाभ्याम् नेत्री भूयो द्वाभ्याम् ध्वजमेकेन पत्रिणा अभिहृदयम् तस्य विव्याध जगदम्बिके ततो वमन् सृदिरम् ममा रे देवी तस्गत अत मी शांतमासे जगत्र ब्रह्म दस सुटोजि का ऊचु जगद्रम विभक परमेश्वरे नम शाकम्भरी शिवे नमस्ते शतलोचने सर्वोपनिषद् उद्गुष्टे दुर्गमासुरनाशिने नमो मायेष्वी शिवे पञ्चकोषान्तरस्थिते चेतसा निर्विकल्पेन यां धायन्ति मुनीश्वरः प्रणवार्थे स्वरूपान्तम् भजामो भुवनेश्वरीम् अनन्तकोटि ब्रह्माण्ड जननी दिव्यविग्रहम् ब्रह्मविष्णुवादि जननीं सर्वभावेनता वयम् कक्कुर्या त्वा दृष्ट्वा रोदनं च कलेश्वर हे स्वयाम् परमेशानिं शदाक्षिम् मातरम् विना इति देवी श्रे देवि ब्रह्मविष्णवादिभिर्वरैः पूजिता विविधै द्रव्यैः संतुष्टा भूच्य तत्क्षणे प्रसन्ना सा तथा देवि वेदानाहृत्य सा दौ ब्रह्मणेभ्यो विशेषेण प्रोवाच पिकभाषिणी ममेयम् सृत्कृष्टा पालनीया विशेषतः यया विनार्थ विनानर्थ एष दातोहि पूज्याहं सर्वदा सेव्य युष्माभिः सर्वदैव हि न तरतरं किञ्चित् कल्याणो कल्याणायोपदिश्यते पठनीयम् मम एतद्धि महात्म्यं सर्वदोत्तमम् तेन तुष्टा भविष्यामि हरिष्यामि तथापरः आसुर हन्त्रि त्वात् दुर्गे चे मम नाम यः गृह्णाति च साक्षीति मायाम् भीत्वा व्रजत्यसौ किमुक्ते नास्रभवना सारम् भक्ष्यामि तत्त्वतः संसेव्याहम् तथा देवः सर्वैरपि सुरासुरैः इत्युक्तार्हिता देवी इत्युक्त्वार्हि सा देवी देवानाम् चैव पश्यताम् सन्तोषम् जनयन्त्येवम् सच्चिदानन्दरूपिणी एतत् ते सर्वमाख्यातम् रहस्यम् परमम् अथ गोपनीयम् प्रयत्नेन सर्वकल्याणकारकम् एवं सूर्य नित्यम् अध्यायम् भक्तिस्तत्परः सर्वान् कामान् वाप्नोति देवी लोके महीयते इति श्रीमद्देवी भागवते मा पुराणे षादशसहस्रां संहितायाम् सप्तमस्कन्धे शताक्षी चरित्रवर्णनं नाम अष्टाविंशोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु